श्रीगणेशाय नमः श्रीगौरी शङ्कराभ्याम् नमः अथ श्रीशिवमहापुराणे विद्येश्वरसहितायाम् एकादशोऽध्यायः शिवलिङ्गपूजनदानप्रकाराः ऋषयो वचो कथम् लिङ्गम् प्रतिष्ठाप्यम् कथं वा तस्य लक्षणम् कथं वा तत् देशे काले च केन हि श्रोवाच यस्मादर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः अनुकूले शुभे काले पुण्ये तीर्थे त चे तथा यथेष्टं लिङ्गमारोप्यं यत्रस्यान्नित्यमर्जनम् पार्थिवेन तथाप्येनम् तैजसेन यथा कलालक्षणसंयुक्तम् लिङ्गम् पूजाफलं लभेत् सर्वलक्षणसंयुक्तम् सद्य पूजाफलप्रदम् चरे शिष्यते सूक्ष्मम् स्थावरे स्थूलमेव हि सलक्षणं सपीठं च स्थापये निर्मितं शिवम् मण्डलं चतुरस्रं वा त्रिकोणम् अथवा तथा कट्वाङ्गवन्मध्य सूक्ष्मम् लिङ्गपीठम् महाफलम् प्रथमम् मृच्छिरादिभ्यो लिङ्गम् लोहादिभिः कृतम् येन लिङ्गम् तेन पीठम् स्थावरेही विशिष्यते लिंगं पीठं चरित्रेकम् लिङ्गम् बाणकृतं विना लिङ्गप्रमाणं कर्तॄणां द्वादशाङ्गुलमुत्तमं न्यूनं चेत् फलमल्पं स्यात् अधिकं नैवदुष्यते। दृश्यते कर्तुरेकाङ्गुलन्यूनं चरेऽपि च तथैव हि आदौ शिल्पेन कार्ये देवगणर्युतं तत्र गर्भगृहे रम्ये दृढे दर्पणसन्निभे भूषिते नवरत्ने च दिग्द्वारे प्रधानके नीलम् रक्तम् च वैदूर्यम् श्यामम् मारकतम् तथा मुक्ताप्रवाल गोमेद वज्राणि नवरत्नकम् मध्ये लिङ्गम् द्रव्यम् निक्षिपे स्वः वैदिके सम्पूज्य लिङ्गं सदाद्यै पञ्चस्थाने यथाक्रमम् अग्नौ चुत्वा बहुधा अविशा सकुलं च माम् अभ्यस्य गुरुमाचार्यम् अर्थय कामाय च दद्याय बान्धवम् दद्यायैश्वर्यमर्थिभ्यो जलमप्यजलं तथा स्थावरं जङ्गमं जीवं सर्वे सन्तोषयत्नतः सुवर्णपूरते शुभ्रम् नवरत्नै पूजिते सद्यादि ब्रह्मचोच्चार्य ध्यात्वा देवं परं शुभम् उदीर्य च महामन्त्रम् ओङ्कारं नादघोषितम् लिङ्गं तत्र प्रतिष्ठाप्य लिङ्गम् पीठेन योजयेत् लिङ्गम् सपीठं निक्षिप्य नित्यलेपेन बन्धयेत् एवं वेदं च संस्थाप्य तत्रैव परमं शुभम् पञ्चाक्षरेण वेरं तु उत्सवार्थं बहिस्तथा वेदं गुरुभ्यो गृह्णीयात् साधुभिः पूजितं तुवा। वा एवं लिङ्गे च वीरे च पूजा पदप्रदा पुनश्च द्विविधं प्रोक्तम् स्थावरं जङ्गमं तथा स्थावरं लिङ्गमित्याहु तर्गुल्मादिकं तथा जङ्गमं लिङ्गमित्याहु कृमिकीटादिकं तथा स्थावरस्य च शुश्रूषा जङ्गमस्य च तर्पणम् तत्तत् सुखानुरागेण इव विदुर्बुधा पीठम् अम्बामयम् सर्वम् शिवलिङ्गम् चिन्मयम् यथा देवीम् ममामङ्गे दृष्ट्वा तिष्ठति शङ्करहे तथा लिङ्गमिदम् पीठम् धृत्वा तिष्ठति सन्ततम् एवम् स्थाप्य महालिङ्गम् पूजयेदुपचारकै नित्यपूजा यथा शक्ति ध्वजादिकरणम् तथा इति संस्थापये लिङ्गम् साक्षासीव पदप्रदम् अथवा चरलिङ्गे तु षोडशै उपचारकैः पूजयेच्च यथा न्यायम् क्रमाथैव पदप्रदम् आवाहनं चासनम् च अर्घ्यम् पाद्यं तथैव च तरङ्गाय च मनं स्नानम् अभ्यङ्गपूर्वकम् वस्त्रं गन्धं तथा पुष्पम् धूपं दीपनिवेदनं नीराजनं च ताम्बूलम् नमस्कारो विसर्जनम् अथवार्घ्यादिकं कृत्वा नैवेद्यान्तं यथा विधि अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् यथाशक्ति सदा कुर्यात् क्रमाचीव पदप्रदम् अथवा मानुषे लिङ्गे व्यासे देवैः स्वयं स्वयं भुवि स्थापिते पूर्वके लिङ्गे सोपचारं यथा तथा पूजोपकरणे दत्ते यत्किञ्चित् फलमश्नुते प्रदक्षिणा नमस्कारे क्रमाक्षीव पदप्रदम् लिङ्गं दर्शन मात्रं वा नियमेन शिवप्रदम् मृत्पिष्टघोषकृत्पुष्पै करवीरेण वा फलै गुडेन नवनीतेन भस्मना नैर्यथा रुचिः लिङ्गं यत्नेन कृत्वा यजे ते यजेतदनुसारतः अङ्गुष्ठादोपि तथा पूजामिच्छन्ति केचन लिङ्गकर्मणि सर्वत्र निषेधोऽस्ति न कर्हि सर्वत्र फलदाता हि प्रयासानुगुणं शिवहे अथवा लिङ्गदानं वा लिङ्गमूल्यं तथापि श्रद्धया शिवभक्ताय दत्तं चैव पदप्रदम् अथवा प्रणवं नित्यं जपेद च सहस्रकम् सन्ध्ययो च सहस्रं वा नेयं चीव पदप्रदम् जपकाले मं मनश्शुद्धीकरम् भजेत् समाधो मानसं प्रोक्तम् उपांशु सार्वकालिकम् मानये प्रणवम् चेम बिन्दुनादयुतं विदुः अथ पञ्चाक्षरम् नित्यं जपेदयुतमादरात् सन्ध्ययोश्च सहस्रम् वा नेयं शिव पदप्रदम् प्रणवेनादिसंयुक्तम् ब्राह्मणानाम् विशेष्यते दीक्षायुक्तम् गुरुर्ग्राह्यम् मन्त्रम् कुम्भस्नानं मन्त्रदीक्षाम् मातृकान्यासमेव च ब्रह्मण सत्यभूतात्मा गुरुज्ञानी विशेष्यते द्वियाणां च नमः पूर्वम् अन्येषां च नमोऽकम् स्त्रीणाञ्च केचित् इच्छन्ति नमोन्तं च यथाविधि विप्रस्त्रीणां नमः पूर्वम् इदम् इच्छन्ति केचन कोटि जपं कृत्वा सुराशिव समोभवेत भवेत् एकद्वि त्रिचतुः कोट्या ब्रह्मादीनां पदं व्रजेत् जपेदक्षरलक्ष्यं वा अक्षराणां पृथक् अथवा अक्षरलक्षं वा न्येयं सहस्रं तु सहस्राणाम् दिनेन हि जपेन् मन्त्रादिष्टसिद्धि नित्यं ब्राह्मण भोजनात् अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ब्राह्मणस्तु जपेन् नित्यं क्रमासीव पदप्रदाम् वेदमन्त्रा च सूक्तानि जपेन् नियममास्थितः एकन्दर्णमन्त्रं च चतोवरम् च तदूर्धकम् अयुतम् च सहस्रम् च शतमेकम् विना भवेत् वेद पारायणम् चैव वे, देयम् शिव पदप्रदम् अन्यान् बहुतरान् मन्त्रान् जपेरक्षरलक्षतः एकाक्षरान् तथा मन्त्रान् जपेराक्षरकोटितः ततः परम् जपे चैव सहस्रम् भक्तिपूर्वकम् एवं कुर्याद्यथा शक्ति क्रमाचीव पदम् लभेत् नित्यम् रुचिकरम् चेकम् मन्त्रमरणादिकम् सहस्रम् विधि जपेत् सर्वाभीष्टम् चिवा पुष्पारामादिकं पुष्पारामादिकम् वापि तथा सम्मार्जनादिकम् शिवाय शिवकार्यार्थे कृत्वा शिवपदम् लभेत् शिवक्षेत्रे तथा वासम् नित्यम् कुर्या च भक्तितः जडानाम् अजडानाम् च सर्वेषाम् भुक्तिमुक्तिरम् तस्माद् शिवक्षेत्रे कुर्यादा मरणम् बुध लिङ्गाधस्तश्च तम् पुण्यम् विदुः सहस्रारत्निमात्रम् तु पुण्यक्षेत्रे तथाशके दैवलिङ्गितथा ज्ञेयम् सहस्रारत्निमानतः धनुप्रमाणसाहस्रम् पुण्यम् क्षेत्रे स्वयम्भुवि पुण्यक्षेत्रे स्थितावापि उपायम् पुष्कराणि च शिवगङ्गेति शिवस्य वचनं यथा तत्र स्नात्वा तथा दत्वा जपित्वा हि शिवं व्रजेत् शिवक्षेत्रं समाश्रित्य वसेदा मरणं तथा दाहं दशाहम् आस्यं वा सपिण्डीकरणं तु वा शिवक्षेत्रे क्षेत्रे पिण्डमथापि वा सर्वपापविनिर्मुक्त सद्यश्चैव पदं लभेत् अथवा सप्तरात्रं वा वसेद्वा पञ्चरात्रकम् त्रिरात्रमेकरात्रं वा क्रमाक्षीव पदम् लभेत् स्ववर्णानुगुणं लोके स्वाचारात् प्राप्नुते नरहे वर्णोद्धारेण भक्त्या च नरहे सर्वं कृतं कामनया सद्य फलमवाप्नुयात् सर्वं कृतमकामेन साक्षात् शैव पदप्रदम् प्रातर्मध्याह्न सायाह्नम् अस्त्रीष्वेकथक्रमत् प्रातर्विधिकरं न्येयम् मध्याह्नम् कामिकम् तथा सायाह्नम् शान्तिकं न्येयम् रात्रोऽपि तथैव मध्यया मद्वयम् निशी शिवपूजा विशेषेण तत्कालेभिश्च सिद्धिदा एवं ज्ञात्वा नर कुर्वन् यथोक्त फलभाग् भवेत् कलोयुगे विशेषेण फलसिद्धि तु कर्मणा उक्तेन केनचिद्वापि अधिकार विभेदतः सद्वृत्तिपापभिरुचेत् तत्सत्फलम् अवाप्नुयात् ऋषेयुचौ अथ क्षेत्राणि पुण्यानि समासात् कथयस्व नः सर्वाश्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् सूतयोगी वरश्रेष्ठ शिवक्षेत्रायमान् तथा सुत उवाच शृणुते श्रद्धया सर्व क्षेत्राणि च तदागमान् इति श्रीशिवमहापुराणे प्रथमायाम् विघ्नेश्वरसंहितायाम् शिवलिङ्गपूजादिवर्णनम् नाम एकादशोऽध्यायः श्रीगौरी शङ्करार्पणमस्तु